ध्याये ध्यायेन्निरामयं वस्तु सर्गस्थितिलयाधिकं निर्गुणं निष्कलं नित्यम् मनोवाचामगोचरम् गंगाधरं शशिधरम् चटामकुटशोभितम् श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् लोचनत्रयसम्पन्नम् स्वर्णकुण्डलशोभितम् स्मेताननं चतुर्बाहुम् हारोपशोभितम् अक्षमालां सुधाकुम्भम् चिन्मयेन्मुद्रिकामपि पुस्तकम् च भुजैर्दिव्यैः दधानम् पार्वतीपतिम् श्वेताम्बरधरम् श्वेतम् रत्नसिंहासनस्थितम् सर्वाभीष्टप्रदातारम् वटमूलनिवासिनम् वामाङ्के संस्थिताम् गौरीम् बालार्कायुतसन्निभाम् जपाकुसुमसाहस्र समानश्रियमीश्वरी सुवर्णरत्रखचिता मकुटेण विराजिता ललाटपट्टसम्राजत् संलग्नतिलकाञ्चिताम् राजीवायतनेत्रान्ताम् नीलोत्पलदलेक्षणा सन्तप्तहेमखचित ताटङ्काभरणान्विताम् ताम्बूलचर्वनरत रक्तजिह्वा विराजिताम् पताकाभरणोपेता मुक्ताहारोपशोभिता स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युता सुवर्णरत्नखचित कहाञ्चिदामविराजिताम् कदलीलितस्तम्भ सन्निभोरुयुगान्विताम् श्रिया विराजितपता भक्तत्राणपरायणा अन्योन्याश्लिष्टहृद्बाहु गौरी शङ्करसंज्ञकम् सनातनम् परं ब्रह्म परमात्मानमव्ययम् आवाहयामि जगता ईश्वरम् परमेश्वरम् मङ्गलायतनम् देवं युवानम् अतिसुन्दरम् ध्यायेत्कल्पतरोर्मूळे सुखासीनम् सहो मया आगच्छागच्छ भगवन् देवेश परमेश्वरा सच्चितानन्दभूतेषा पार्वतीश नमो स्तुते ओ oh.